सर्वेभ्यः अस्माकं योगनिश्च जीवनमिति वर्गे भवतां सर्वेषां स्वागतं भवसागरस्य तरणं कथं कर्तुं शक्यते इति विषयः अस्ति अस्मिन् प्रसङ्गे एकः श्लोकः वर्तते गी गीतायां दैवी एषा गुणमयी मम माया दुरत्यया मामेव ये प्रपद्यन्ते मायाम् एतां तरन्ति एषा गुणमयी मम माया अत्र मम माया इति उक्तं मम माया मम इति कस्य इत्युक्ते परमपुरुषस्य मम माया दैवी दैवी माया दैवी अस्ति गुणमयी त्रिगुणात्मिका माया दुरत्यया तस्याः तस्याः तरणं सुलभं नास्ति तस्य त तस्याः तरणं कथं कर्तुं शक्यते इति मामेव ये प्रपत्यन्ते मायामेतां तरन्ति ते मामेव ये प्रपत्यन्ते प्रपत्तिः प्रपत्तिः नाम का इति चेत् प्रपत्तिः इत्युक्ते तत्र शरणागतिः इत्यर्थः परमपुरुषस्य या इच्छा सा एव इच्छा मम अपि मम स्वतन्त्रतया न इच्छा यथा परमपुरुषः इच्छति तथा एव भवतु मम तु मम स्वतन्त्रतया अस्तित्वं नास्ति इति एतादृशभावः इत्युक्ते यथा तस्य इच्छा परमपुरुषस्य इच्छा या या इच्छा तस्य अस्ति सा मम अपि इच्छा इति भावः अत्र जगति तृणमपि परमपुरुषस्य इच्छां विना न वहति खलु न इतः ततः न गच्छति तर्हि तत्र मायायाः तरणं कथं कर्तुं शक्यते माया दुरत्यया मायाः तरणं कथं कर्तुं शक्यते इति चेत् मामेव ये प्रपत्यन्ते ये प्रपत्ति प्रपत्तिं कुर्वन्ति ते एव मायां तरन्ति माया तु परमपुरुषस्य दासी दासी वर्तते तर्हि किमर्थं साधकः मायायाः भयं किमर्थं किमर्थं मायाः भयं यस्य हृदि परमपुरुषं प्रति प्रेमभावः भक्तिभावः वर्तते तस्य हृदि मायां प्रति भयम् नास्ति मायाः भयं नास्ति यद्यपि माया भयङ्करी अस्ति माया भयङ्करी अस्ति तथापि तां प्रति तत्र भयं माया नास्ति मायाः भयं नास्ति माया तु परमपुरुषस्य शक्तिः शक्तिः वर्तते यस्य परमपुरुषं प्रति प्रेमभावः वर्तते सः तु मायाः भयं न अनुभवति अतः एव शक्तिः स शिवस्य शक्तिः शक्तिशिवात्मकं शिवशक्त्यात्मकं ब्रह्म शक्तिः शिवस्य शक्तिः शक्तिः शिवाधीना वर्तते तर्हि तस्य शक् शक्तेः अधिकारः कस्य वर्तते इति चेत् शक्तेः उपरि आधिपत्यं कस्य वर्तते इति चेत् परमपुरुषस्य शिवस्य वर्तते तर्हि या सीमा सीमारेखा वर्तते परमपुरुषेण या सीमारेखा कृता तस्याम् एव शक्तिः कार्यं करोति तत्र परमपुरुषस्य यावत् यावत् अनुमति वर्तते तावदेव मया तस्मिन् तस्यां क्षीमा सीमायामेव मया कार्यं करोति तस्या तस्य तस्य तस्य तस्याः सीमायाः बहिः मया तु न शक्यते इति अत्र नियमः अस्ति तर्हि अत्र साधकस्य पार्श्वे तत्र विकल्पद्वयं वर्तते सः तु परमपुरुषस्य समीपे गन्तुं शक्नोति अथवा तस्मात् परमपुरुषात् दूरमपि गन्तुं शक्नोति तर्हि मायायाः अंशद्वयं वर्तते अविद्यामाया विद्यामाया इति तर्हि अविद्यामायाः शरणं यः स्वीकरोति तर्हि सः तु परमपुरुषात् दूरमेव गच्छति तर्हि अविद्यामायाः शरणम् इत्युक्ते यस्य मनसि षड्रिपवः अष्टपाशाः सन्ति ते तु तस्य तु तादृशपुरुषस्य तादृशमनुष्यस्य मनः अधः पतति अतः सः तु परमपुरुषात् दूरं गच्छति तत्र केन्द्रात् पुरुषोत्तमस्य केन्द्रात् सः दूरं गच्छति यः विद्यामायाः पालनं करोति इत्युक्ते यः उत्तमकार्याणि करोति सः तु परमपुरुषस्य समीपं समीपं गच्छति तर्हि जीवात्मा मायाः जीवात् जीवात्मनि मायायाः भयं न भवेत् अपि च एतादृशविचारः अपि न भवेत् यत् मायाः तरणं क्लिष्टकरम् इति अपि विचारः भवेत् यद्यपि सा दुरत्यया तथापि तस्य तरणं शक्यते यः साधकः अस्ति सः तु तस्मिन् तु भयभीतिः कदापि न भवेत् यतोहि सः जानाति यत् माया तु परमपुरुषस्य वर्तते यदि साधकस्य हृदि प्रपत्तिः वर्तते प्रणिपातः वर्तते तस्य हृदि परमपुरुषं प्रति प्रीतिभावः वर्तते तर्हि सः तु भयभीतः न भवति तस्मिन् भीतिः न भवति यतोहि सः जानाति मम हृदि परमपुरुषं प्रति प्रीतिभावः वर्तते परमपुरुषं परमपुरुषः सः सर्वं जानाति सः सर्वं सम्यक् करोति इति तादृशदृढविश्वासः तस्मिन् साधके वर्तते इति कृत्वा स कदापि मायातः भीतिः भीतिं न प्राप्नोति यद्यपि माया दुरत्यया तस्याः अतिक्रमणं बहु बहु क्लिष्टकरण क्लिष्टकरं वर्तते इति मया उक्तमेव तर्हि तर्हि इदानीं प्रश्नः अस्ति माया दुरत्यया तर्हि भवसागरस्य तरणं कथं वा कर्तुं शक्यते भवसागरस्य तरणं तु बहु क्लिष्टकरम् अस्ति खलु कथं कर्तुं शक्यते इति चेत् तर्हि यद्यपि भवसागरस्य तरणं क्लिष्टकरमस्ति तथापि साधकस्य हृदि भीती भीतिः भयं नास्ति यद्यपि माया भयङ्करी अस्ति तथापि परमपुरुषः परमपुरुषः इति अपि एक एक एकवस्तु वर्तते एकं वस्तु वर्तते एक वर्त तर्हि परमपुरुषं प्रति दृढ दृढसङ्कल्पः दृढभावना दृढप्रीतिः दृढभक्तिः एतत् सर्वं यस्य हृदि वर्तते तदानीं तत्र किं भवति इति चेत् परमपुरुषः मायायाः नियन्त्रणं स्वयं करोति अतः अत्र भयस्य कारणमेव नास्ति परन्तु यः जडज्ञानी अस्ति यः केवलं पुस्तकस्य पठनमेव करोति तस्य हृदि भक्तिभावः नास्ति तादृशपुरुषः तु भवसागरस्य तरणं कर्तुमेव न शक्नोति भक्तिभावं विना भवसागरस्य तरणं न शक्यते यः जडज्ञानी अस्ति स तु न कर्तुं शक्यते सः भवसागरस्य तरणं न कर्तुं शक्यते परन्तु केवलं यः भक्तः वर्तते स एव भवसागरस्य तरणं कर्तुं शक्यते यतो हि या जडज्ञानी अस्ति तस्य तु जीवनं तु केवलं वादविवादे एव गच्छति इत्युक्ते अहमेव महान इति निरूपणे एव तस्य समयः गच्छति इति कृत्वा तस्य हृदि तु भक्तिभावः नास्ति शास्त्रस्य शास्त्र शास्त्रस्य इत्युक्ते शास्त्रस्य यः समुद्रः वर्तते तस्य मतनेन तस्य मतनेन यद् नवनीतं लभ्यते तत्तु केवलं भक्तः एव खादति यतोहि किमर्थं केवलं भक्तः एव खादति इति चेत् तत्र ज्ञानी जडज्ञानी खाद् का, न शक्नोति यतोहि सः तु व्यस्तः अस्ति विचारं विचारं कर्तुं सः व्यस्तः अस्ति यदा समुद्रस्य मतनं जायते शास्त्रसमुद्रस्य मतनं जायते तदानीं तत्र किं जडज्ञानी किं करोति इति चेत् सः सर्वदा चिन्तनं करोति विचारं करोति इत्युक्ते यत्र एक एकः आम्रवृक्षः अस्ति इति चिन्तयतु तत्र भक्तः अपि गच्छति ज्ञानी अपि गच्छति तर्हि तत्र किं भवति तदानीं भक्तः ज्ञानी ज्ञानी तत्र ज्ञानी किं करोति जडज्ञानी किं करोति यदा आम्रवृक्षस्य समीपे गच्छति तदानीं सः किं करोति सः पश्यति आम्रवृक्षं पश्यति तदानीं तत्र तस्मिन् वृक्षे कति पत्राणि सन्ति कति फलानि सन्ति कति पुष्पाणि सन्ति पुष्पस्य वर्णः कः इत्येवं रीत्या सः विचारं करोति ओ आम्रवृक्षः अन्यस्मात् वृक्षात् कथं भिन्नः वर्तते इति एवं रीत्या तस्य मनसि बहु विचारः जायते जडज्ञाने इति चिन्तने एव समयस्य व्ययः जायते परन्तु यः भक्तः अस्ति सः तु गच्छति आम्रफलं नी आम्रफलं नीत्वा सः तु खादति आम्रफलं गृहीत्वा सः तु खादति तर्हि तु भक्तः तु केवलं खादति तर्हि आम्रफलस्य रसम् अनुभवति परन्तु जडज्ञाने तु केवलं तत्र चिन्तने समयस्य व्ययं करोति इतिते यः भक्तः अस्ति सः तु परमपुरुषस्य रसं प्राप्नोति परन्तु जडज्ञानी तस्य हृदि मरुभूमिः इव भवति तत्र किमपि नास्ति भक्तिभावः नास्ति केवलम् अहङ्कारः एव अस्ति अहं महान् इति अहङ्कारः अस्ति अहं सर्वं जानामि यद्भवान् वदति तत् सम्यक् नास्ति अहमेव महान् अस्मि इति तेतादृश अहङ्कारभावः एव भवति जडज्ञानस्य जडज्ञानी यः वर्तते तस्य हृदि अतः तस्य सम्पूर्णजीवनं व्यर्थं भवति यतोहि स चिन्तयति यदहं जानामि तदेव सम्यक् अस्ति इति चि चिन्तयित्वा चिन्तयित्वा तस्य सम्पूर्णजीवनं व्यर्थं गच्छति मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते तर्हि यः बुद्धिमान् बुद्धिमान् व्यक्तिः व्यक्तिः अस्ति सः किं करोति इति चेत् सः परमपुरुष शरणे शरणे गच्छति परमपुरुषस्य आश्रयं स्वीकरोति परमपुरुषस्य आश्रयं स्वीकरोति इति कृत्वा सः मायाः तरणं सुलभतया कर्तुं शक्नोति परमपुरुषः तु एकः एका नौका वर्तते एका नौका वर्तते भवां भवां बोधिपोतं शरणं व्रजामः अस्य भवसमुद्रस्य तरणं कथं कर्तुं शक्यते इति चेत् परमपुरुषः इति एका नौका तस् उपविश्य वयं सुलभतया अग्रे गन्तुं शक्नुमः भवसागरस्य तरणं कर्तुं शक्नुमः सः तु एका सः तु एका नौका वर्तते सः अवश्यमेव तत्र अन्यस्मिन् पार्श्वे भवसागरस्य तरणं कृत्वा भवसागरं तरित्वा वयं अन्यस्मिन् पक्षे गन्तुं शक्नुमः तदर्थम् अस्माभिः किमपि न करणीयं यतो हि वयं तु तरणं न जानीमः इति यदा तस्य शरणं स्वीकुर्मः तदानीम् इदानीं तस्य दायित्वम् अस्ति तस्य आश्रयं स्वीकुर्मः तस्यां नौकायाम् आश्रयं स्वीकुर्मः स्वीकुर्मः चेत् अस्माभिः किमपि न करणीयं वयं स्वयं तत्र गत्वा तत्र लक्ष्यं वयं प्राप्नुमः अतः अस्माभिः भक्ताः इत्युक्ते वयं भक्ताः भवामः न तु जडज्ञानिनः जडज्ञानी इति तु तत्र जडज्ञानी अस्ति चेत् जीवनं व्यर्थं भवति यतोहि सः तु तरणं कर्तुं न शक्नोति यतोहि तस्य स्वस्य अहङ्कारे एव सः इति कृत्वा वयं भक्ताः भवामः वयं जानीमः भक्तस्य भक्तस्य बहवः स्तराः सन्ति तत्र तामसिकीभक्ति राजसिकीभक्ति सात्विकीभक्ति इति वयं जानीमः रागात्मिका भक्ति रागानुगा रागानुगाभक्ति रागात्मिका भक्ति इति रागात्मिकाभक्तिः इति अन्तिमस्तरः यत्र भक्तः किमपि न इच्छति किमपि न इच्छति किमर्थं सः भक्तिभागं करोति इति चेत् केवलं परमपुरुषस्य तृप्त्यर्थं परमपुरुषस्य प्रीत्यर्थं मम भक्तिद्वारा परमपुरुषे परमपुरुषाय परमपुरुषे प्रीतिः भवतु परमपुरुषे आनन्दः भवतु इति एतादृश एतादृश एव तस्य लक्ष्यमस्ति इत्युक्ते सः किमपि न इच्छति तस्य कृते किमपि न इच्छति तस्य अहङ्कारः नास्ति तस्य अस्तित्वमपि नास्ति तस्य स्वतन्त्रतया इच्छा नास्ति किमपि नास्ति केवलं भक्तिः किमर्थं करोति चेत् तत्र परमपुरुषस्य भक्तिद्वारा तस्य हृदि आनन्दः भवतु इति अपि इच्छा नास्ति रागानुगाभक्तिः इति यः करोति तस्य हृदि तु मम भक्तिद्वारा मयि आनन्दः भवतु इति इच्छा भवति परन्तु रागात्मिका भक्ति भक्तिः इति यद्वदामः तत्र तु तादृश इच्छा अपि न भवति तत्र तस्य हृदि इच्छा एव न भवति न कापि इच्छा तर्हि अत्र अस्माकं लक्ष्यं किं भवेत् इति चेत् अन्ततो गत्वा अत्र आत्ममोक्षः जगतः हितम् अनन्तरं भक्तिभावः आत्ममोक्षार्थम् अस्माभिः योगनिष्ठजीवनस्य पालनं करणीयम् अनन्तरं साधना अपि करणीया अनन्तरं जगतः हितं जगतः हितं यदा वयं कुर्मः तदानीम् अस्माकं मनः वर्दते, मनसि ये मलाः सन्ति ते निर्गच्छन्ति मलाः निर्गच्छन्ति चेत् मनः शुद्धं भवति स्वच्छं भवति यदा मनः स्वच्छं भवति तदानीम् अस्माकं सूक्ष्मं प्रति सुलभं भवति यदा मनः स्वच्छं न भवति तदानीं मनः मनसः अधोगतिः भवति तत्र स्थूलं प्रतिगमनं भवति सूक्ष्मं प्रति गमनमेव अस्माकं लक्ष्यं स्थूलं प्रति अस्माकं लक्ष्यं नास्ति सूक्ष्मं प्रति अत्र विषयद्वयं तत्र आवश्यकमस्ति एकं तु तत्र साधनाद्वारा अस्माकं मनः यदा वर्धते तदानीं चैतन्यस्य प्रतिबिम्बः इतोपि स्पष्टतया भवति अनन्तरं तत्र प्रकृतेः नियमानां भङ्गः न स्यात् प्रकृतेः नियमानां भङ्गः न नियमानुसारं यदा वयम् अग्रे गच्छामः इत्युक्ते तत्र योगनिष्ठजीवनस्य पालनं कृत्वा यदा वयम् अग्रे गच्छामः अपि साधनां कुर्मः भक्तिभावं भावभावद्वारा तदानीं किं भवति इति चेत् मनः स्वच्छं भवति तदानीं सूक्ष्मं प्रति सुलभं भवति भवसागरस्य तरणं सुलभं भवति तर्हि अत्र तदर्थं साधना इत्युक्ते साधनां कर्तुं तत्र हृदि प्रपत्तिः अपि भवेत् प्रपत्तिः भक्तिभावः एतत् सर्वं भवति चेत् तदानीं भवसागरस्य तरणं सुलभं भवति इति अत्र विषयः अस्ति अस्तु कूपि कुंसयः अस्ति वा किमपि वक्तव्यं वा करपत्रं प्रति गच्छामः भग्निश्लोकं वदतु देवी एषा गुणैः मम माया दुरत्य दैवीः एषा गुणमयी मम माया दुरत्यया मामेव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते मम मया एकः प्रश्नः अस्ति गतसप्ताहे भवती उक्तवती कथं वयम् इन्द्रियाणि निग्रहं कुर्मः तत्र जिग्राणि इति सूक्ष्मभाव आनीतव्यम् ततः न अवगच्छामि कथम् अस्ति तत् इत्युक्ते यः साधनायां मग्नः भवति साधनां कृत्वा कृत्वा कृत्वा अस्माकम् इन्द्रियाणि सूक्ष्माणि भवन्ति तदानीं साधनाद्वारा तत्र सूक्ष्मगन्धस्य आकर्षणं भवति सूक्ष्मगन्धः अस्माकं नासिकायाम् आगच्छति यदा सूक्ष्मगन्धः अस्माकं नासिकायाम् आगच्छति तदानीं स्थूलगन्धं प्रति आकर्षणं न भवति सूक्ष्मगन्धः इति किं सूक्ष्मगन्धः इत्युक्ते तत्र यथा तत्र सूक्ष्मशब्दः वर्तते खलु हियर् वित् अवर् आर्डनरी इयर्स् सूक्ष्मशब्दः वर्तते तथैव सूक्ष्मगन्धः अपि वर्तते यः साधनां करोति सः एव तद् अवगन्तुं शक्नोति सूक्ष्मगन्धः ओम् अपि अस्ति इति किं पुनः वदतु न श्रुतं इति वयं वदामः अनहद् नाद् अस्ति वायुमण्डले प्रचलति केवलं योगी एव एतत् शृण्वन्ति न तु अन्य जनः तथैव खन्ध अपि अस्ति अस्तु हा हा हा सत्यं सत्यम् इत्युक्ते तत्र ओम् ओम् इति यद् यद् वयं वदामः लोके तद् नास्ति तत्र साधनायां स्वयं तत्र साधनायां शृणोति ओम्कारं साधनां साधनायां यः मग्नः वर्तते सः शृणोति ओम्कारं शृणोति uh -huh. साधनायां शृणोति तत् सूक्ष्मशब्दं शृणोति तथैव सूक्ष्मबन्धमपि जिग्रति इत्युक्ते अत्र यः इत्युक्ते साधनायाम् अग्रगतिः यदा भवति तदानीं स्थूलवस्तु वस्तु यदस्ति तद् तत् प्रति आकर्षणं न भवति स्थूलवस्तु प्रति आकर्षणं न भवति यथा भवति अनुशासन अभ्यास स्वभाव आगच्छति तत् आकर्षणमपि अपगच्छति साधु की हा इति तत्र स्थूल इत्युक्ते वयं किं कुर्मः इति चेत् सामान्यतया तत्र यथा भवति वदति अभ्यासः अभ्यास् अनुशासनम् अभ्यासः तदनन्तरम् अन्ततो गत्वा स्वभावः भवति इत्युक्ते इदानीं सात्विक आहारः अस्ति तस्य किञ्चित् कालपर्यन्तम् एतादृशं अनुशासनम् अभ्यासः स्वभावः इति भवति चेत् तत्र अन्यत् किमपि यदस्ति राजसिकाहारः अथवा सामसिकाहारः तं प्रति आकर्षणं आकर्षणं गच्छति खलु हा आकर्षणं गच्छति इत्युक्ते अत्र आकर्षणं गच्छति इत्युक्ते कदाचित् किं भवति इति चेत् यदा तादृशवस्तु यदा वर्तते तस्य सम्पर्के वयम् आगच्छामः चेत् तदानीं कदाचित् यः साधकः अस्ति तस्यापि आकर्षणं भवितुमर्हति भवितुमर्हति इत्युक्ते तत् तत्र सम्पूर्णतया आकर्षणं कथं गच्छति इति यदा सः साधनां करोति परमपुरुषे यदा विलीनं भवति तदानीं स्वयमेव तत्र सूक्ष्मं प्रति यदा गमनम् अग्रगतिः भवति तदानीं स्वयमेव स्थूलवस्तु प्रति आकर्षणं गच्छति यथा तत्र गन्धस्य विषये मया उक्तं सूक्ष्मगन्धं गन्धस्य घ्राणं यदा भवति तदानीं स्थूलगन्धं प्रति आकर्षणं न भवति इत्युक्ते अन्ततो प्रथमतया अस्माभिः योगनिष्ठजीवने यद्यदुक्तं तस्य पालनं करणीयं तदनन्तरं तत्र तादनां साधना इति मुख्यविषयः अस्ति यदा साधना कुर्मः साधनां कुर्मः तदानीं अस्माकं मनः वर्धते यदा मनः वर्धते तत्र सूक्ष्मं प्रति गच्छति मनः सूक्ष्मं भवति सूक्ष्मं यदा मनः सूक्ष्मं भवति तदानीं स्थूलविषयं प्रति आकर्षणं न भवति सूक्ष्मं भवति चेत् परमपुरुषं प्रति गच्छति यदा परमपुरुषं प्रति गच्छति तदानीं स्थूलजगत् जगत् प्रति आकर्षणं सम्पूर्णतया गच्छति mm -hmm. तर्हि इत्युक्ते अन्ततो गत्वा तस्मिन् पाठे सारांशः कहा इति चेत् यदा परमपुरुषस्य भावे वयं भवामः तत्र ब्रह्मणि विचरणं यदा भवति ब्रह्मचर्यभावं यदा वयं सर्वदा कुर्मः प्रतिक्षणं तदानीं स्वयमेव आकर्षणं गच्छति अन्यस्य अन्यस्मिन् अन्यविषये आकर्षणं गच्छति अस्तु अपि च अध्यारोपः इति अपि उक्तं खलु तत्र ब्रह्मभावस्य अध्यारोपः यदा अध्यारोपः भवति तदानीं तत्र आकर्षणम् अन्यविषये आकर्षणं गच्छति इत्युक्ते यद् यद् किमपि वयम् इदानीं तत्र चायपानम् इत्यस्य गन्धः आगच्छति चेत् तस्मिन् तस्य उपरि अपि तत्र परमपुरुषस्य भावम् अध्यारोपयामः चेत् तदानीं तत्र वयम अवगच्छामः तत्र अयम् अयं विषयः मम कृते प्रसादरूपेण सर्वम् अस्माभिः ग्रहीतव्यं खलु तर्हि इदानीं चायपानं भगवतः कृते वयं समर्पयामः वा प्रसादरूपेण कदापि न समर्पयामः खलु चायपानम् अथवा काफ़ि प्रसादरूपेण समर्पयामः वा न खलु तर्हि यः यद्वस्तु प्रसादरूपेण न समर्पयामः तद् न स्वीक्रियते किन्तु अहं वक्तुं शक्नोमि ओ अहं प्रसादरूपेण गृहा गृहामि चायपानपानं तदेव इदानीम् अहं वदामि चायपानं वयं परमात्मानं प्रति न दद्मः खलु चायपानं प्रसादरूपेण कः ददति ददाति कः ददाति चायपानं गुरद्वारा इति तत्र चायपानं ददति गुरुद्वारा इत्यत्र वा तद् न जानामि परन्तु सामान्यतया प्रसादरूपेण तु तद् न दद्मः खलु चायपानं न दद्मः फलं पुष्पं अथवा सम्यक् यद् आहारः अस्ति तदेव वयं परमात्मानं प्रति दद्मः यद् बहु सम्यक् अस्ति न तु चायपानम् अथवा काफ़ि अथवा यत्किमपि इत्युक्ते तत्र रेस्टोरेण्ट् मध्ये यत्किमपि लभ्यते तद् वयं वा परमात्मानं कृते न खलु सम्यक् वस्तु एव दद्मः खलु इति कृत्वा चायपानम् उक्तं परन्तु इदानीं मांसाहारम् इति स्वीकरोतु इदानीं तु भवती वक्तुं शक्नोति मांसाहारमहं स्वीकरोमि प्रसादरूपेण इति वक्तुं शक्नोति खलु मांसाहारं तु परमात्मनं कृते वयं न प्रसादरूपेण वयं न दद्मः अतः यद् सम्यक् आहारः अस्ति तदेव वयं स्वीकुर्मः प्रसादरूपेण वयं स्वीकुर्मः तर्हि किञ्चित् अग्रे गच्छामः वा अस्माकं अस्माकम् अत्र विषयः आसीत् मम सम्बन्धः कः जगतः सः मम सम्बन्धः कः परमपुरुषेण सह मम सम्बन्धः कः इति विषयः जायमानः अस्ति तत्र वयं जानीमः सगुणब्रह्मणः जगत् सृष्टं वर्तते तर्हि जगति जीवाः आविर्भूताः तत्र जीवाः बद्धाः जीवाः बद्धाः सन्ति प्रकृतेः प्रभावात् जीवाः बद्धाः सन्ति वस्तुतः जीवाः अपि भगवान् इति एव तेषामपि आ, ते अपि बग भगवान् इति एव वयं वक्तुं शक्नुमः परन्तु यदा ते प्रकृतिबन्धनात् मुक्ताः भवन्ति तदानीं ते अपि निर्गुणावस्थां जीवाः अपि निर्गुणावस्थां प्राप्नुवन्ति तर्हि इदानीं जीवाः अपि भगवन्तः एव सन्ति तर्हि सगुणब्रह्मणः जीवाः कः भेदः इति वयं पश्यामः चेत् तर्हि यदा अत्र मनः निर्मितं भवति अहमस्मि इति भावः यदा भवति अहमस्मि इति भावः तत्र वस्तुतः परमपुरुषः एव प्रकृतेः प्रभावात् अहमस्मि इति भावं प्राप्नोति यथा परमपुरुषः एवं प्राप्नोति तथैव जीवाः अपि प्रकृतेः प्रभावात् एव यः जीवात्मा अस्ति सः अस्मि भावं प्राप्नोति यदा अहमस्मि भावं प्राप्नोति तदानीमेव तत्र पृथक्करणं जायते वस्तुतः जीवः अत्र जीवः तु अणुचैतन्यम् एव वर्तते अणुचैतन्यं वर्तते यदा तस्य तस्मिन् प्रकृतेः प्रभावः भवति तदानीम् इदानीम् अहं रा अहं किं श्यामः अहं गोविन्दः इति तत्र पृथक्करणं जायते पृथक् जीवः प्राप्नोति यदा पृथक् अस्तित्वं प्राप्नोति तदानीमेव सः चिन्तयति अहं भिन्नः अस्मि परमात्मनः अहं भिन्नः अस्मि तर्हि मुक्तिः इत्युक्ते किम् इति, इति चेत् एतात् एतादृश पृथक्करणभावात् एव मुक्तिः यदा पृथक्करणं न भवति तदानीं मुक्तिः भवति तदानीं सः तस्य वास्तविक अस्तित्वं सः प्राप्नोति यदा अहम् अस्मि इति भावात् मुक्तः भवति तदानीं वास्ति वास्तविक स्वतन्त्रता सह स्वतन्त्रतां सः प्राप्नोति तर्हि इदानीम् अस्माकं लक्ष्यं किम् इति चेत् प्रकृतिबन्धनात् मुक्तिः प्रकृतिबन्धनात् मुक्तिः इत्युक्ते अहमस्मि इति भावात् मुक्तिः अहमस्मि इति भावः यः भावः अस्ति सः भावः भावः एव तत्र परमपुरुषस्य स्वभावात् अस्मान् पृथक् करोति तर्हि तत्र अस्माकं इत्युक्ते यथा तत्र रामः वर्तते यदा सः मञ्चे शाजहान् इति रूपेण व्यवहारम् अथवा नाटके भागं गृह्णाति तदानीं तत्र तस्य पृथक् अस्तित्वम् अस्ति तस्य पृ अस्ति तस्मिन् तस्मिन् तादृश कार्ये षाजहान् यत्किमपि करोति तस्य प्रभावः रामेण भवति तस्य प्रभावः शाहजहान् इति व्यक्तौ एव भवति न तु रामः इति व्यक्तौ तर्हि तत्र शाहजहान् इत्यनेन यत्किमपि कृतम् तस्य प्रभावः शाहजहान् इत्यस्मिन् एव भवति न तु रामे एवम् अत्र यदा अस्माकं पृथक् अस्तित्वं भवति अहमस्मि इति भावेन तथा तदा यत्किमपि वयं कुर्मः यत्किमपि कार्यं वयं कुर्मः तादृशकार्यस्य प्रभावः तादृशकार्यस्य प्रभावः केवलं तस्मिन् मनसि एव भवति न तु जीवात्मनि जीवात्मा तादृशकार्यस्य कर्ता नास्ति तादृशकार्यस्य भोक्ता अपि नास्ति तर्हि जीवात्मा केवलं साक्षिसत्ता वर्तते केवलं यः का अथवा यत् कार्यं करोति यत् कार्यं किं कार्यं करोति इति चेत् मनः एव कार्यं करोति तर्हि मनः एव तस्य कार्यस्य दायित्वमपि स्वीकरोति तर्हि कार्यस्य यत्किमपि कार्यं कुर्मः तस्य प्रतिफलं प्रतिफलम् अथवा प्रतिक्रिया तर्हि प्रतिक्रियायाः दायित्वं मनसि एव भवति न तु जीवात्मनि तर्हि तत्र मनसः त्रयः अंशाः च सन्ति महत्तत्त्वम् अहं तत्त्वं चित्तं इत्यनेन अहम् अस्मि इति भावः भवति अहं तत्त्वम् इति एव अत्र कर्ता अस्ति कार्यस्य कर्ता सः एव आज्ञां करोति येन चित्तं तत्र कार्यस्य रूपं धरति कार्यस्य रूपं धरति तर्हि चित्तम् अहं तत्त्वम् इति यद् वयं पश्यामः सर्वं तु महत्तत्त्वस्येव परिवर्तितं रूपं महत्तत्त्वं तु चैतन्यस्येव परिवर्तितं रूपम् अन्ततो गत्वा यद् वयं पश्यामः चित्तं तु कार्यस्य रूपं धरति इदानीम् अहं पुस्तकं पश्यामि इति चेत् चित्तं पुस्तकस्य रूपं धरति तर्हि पुस्तकं चित्तमेव पुस्तकरूपेण भवति तर्हि अत्र चित्तं तु परमपुरुषस्य परिवर्तितं रूपं पुस्तकमपि परिवर्तितं रूपं तर्हि अन्ततो गत्वा यत्किमपि अस्ति तत्र जगति तत्सर्वं परमपुरुषः एव सामग्री अत्र सर्वत्र सामग्री परमपुरुषः एव परमपुरुष पुरुषस्य विवर्तितं रूपम् एतत् सर्वं तर्हि अत्र मुक्तिः इति यद्वयं वदामः मुक्तिः इत्युक्ते यदा स्व स्वस्य अस्तित्वस्य त्यागः भवति स्वतन्त्र अस्तित्वस्य अत्र अस्माकं लघु अहङ्कारः अहम्भावः यः अस्ति तस्य त्यागः यदा भवति तदानीमेव मुक्तिः इति वयं वदामः तर्हि इदानीं यत्किमपि कार्यं वयं कुर्मः मनसा मनसः द्वारा तर्हि तस्य दायित्वं कस्य उपरि अस्ति इत्युक्ते अहं तत्त्वमेव कार्यं करोति अहं तत्त्वमेव द डुअर् ऐ अस्ति चित्तं दन् ऐ अस्ति महत्तत्वं तु किमपि न करोति केवलम् अहमस्मि इति भावः एव ददाति भावं ददाति तर्हि अहं करोति खलु तर्हि तस्य भागी अस्ति वा इति चेत् तत्र महा महत्तत्वमपि सहभागी अस्ति यद्यपि महत्तत्वं किमपि न करोति तथापि यावत्पर्यन्तम् अहमस्मि भावः नास्ति तावत्पर्यन्तम् अहं किमपि न कर्तुं शक्नोति अतः महत्तत्त्वं तु स्वामी वर्तते अहं तत्त्वस्यापि इति कृत्वा यत्किमपि अहं तत्त्वेन कृतं तस्य सहभागी अस्ति बुद्धितत्वं तस्य उदाहरणरूपेण अस्माभिः दृष्टं तत्र भूमेः स्वामी वर्तते तस्य अन्यस्मिन् अन्य अन्यभूमेः यः स्वामी अस्ति सह यदा युद्धं भवति तदानीं यद्यपि सः युद्धे भागं बा, न गृह्णाति तथापि तस्य ये जनाः ते भागं गृह्णाति तस्य युद्धस्य परिणामः तु भूमेः स्वामी स्वामिनः उपरि एव भवति खलु इति एवं रीत्या अत्र अहं तत्त्वं यद्यपि किमपि कार्यं न करोति तथापि सर्वं कार्यं तु अहं तत्वेन एव कृतं तथापि तत्र महत्तत्वं सहभागी वर्तते सहभागी वर्तते तर्हि अत्र अन्ततो गत्वा मनुष्ये मनुष्यः चित्रिचक्रे बहु विकसितः जीवः वर्तते तर्हि तस्मिन् चैतन्यस्य प्रतिबिम्बः सम्पूर्णतया वर्तते यदा ते जीवाः अहं बद्धः अस्मि इति अवगच्छति तर्हि तदानीं ततः किं करोति इति चेत् सः मुक्तिं प्राप्तुं प्रयत्नं करोति स बन्धनात् मुक्तिं प्राप्तुं प्रयत्नं करोति तदानीं प्रकृतेः सह तस्य युद्धमपि भवति युद्धं भवति अग्रगतिं प्राप्तुं बन्धनात् मुक्तिं प्राप्तुं प्र प्रकृतेः तस्य युद्धमपि भवति इत्युक्ते प्रतिसञ्चर्धारायां प्रकृतिः अपि अस्माकम् अग्रगति अग्रगत्यर्थं सहायं करोति यतोहि तत्र स्थूलात् सूक्ष्मपर्यन्तं गमनमस्ति सत्त्वगुणस्य प्राधान्यं वर्तते प्रतिसं धारायां तत्त्वगुणस्य प्राधान्यं वर्तते दशवादने यदा मनुष्यजीवस्य जन्म भवति तदानीं प्रकृतिः अपि सहायं कर्तुं सिद्धा वर्तते परन्तु यदा मनुष्याः प्रकृतेः वि गो द डिसैन्स् आफ़् प्रकृति तदानीं We uh, We We get the the the reactions. reactions. experience experience Iti Yavat कर्मफलद्वारा वयं बन्धने भवामः यावत्पर्यन्तं कर्मफलं भवति तावत्पर्यन्तं वयं वन्दने भवामः तावत्पर्यन्तं पुनर्जन्म भवति तर्हि यथा तत्र अस्माभिः दृष्टं चित्तं यत् किमपि कार्यमस्ति तद, तद् तद्वद् bhavati चित्तम् तर्हि चित्तं स्वस्य वास्तविकं रूपं यदस्ति वास्तविकं स्वरूपं यदस्ति तद् त्यक्त्वा इदानीं भिन्नं भिन्नं स्वरूपं स्वीकरोति इदानीं पुस्तकस्य दर्शनम् चेत् चित्तं स्वस्य वास्तविकरूपं त्यक्त्वा इदानीं पुस्तकवत् भवति इदानीं पुस्तकत् भवति तथा तु एकं कार्यमस्ति तादृशकार्यस्य अत्र यत्किमपि कार्यमस्ति तस्य प्रतिफलं तु भवति एव तर्हि प्रतिफलं प्रति प्रतिक्रियाद्वारा मनः स्वस्य वास्तविकम् अस्तित्वं प्राप्नोति तदेव कर्मफलम् इति वयं वदामः तर्हि तर्हि इदानीं तत्र मनुष्यस्य अहमस्मि इति भावः एव इदानीं चित्तरूपेण अस्ति तदेव इदानीं पुस्तकरूपेण अस्ति तदेव यद् चित्तम् पुस्तकरूपेण पश्यति यत्किमपि चित्तं चित्तं पुस्तकरूपेण पश्यति तत्तु स्वस्य वास्तविकम् अस्तित्वम् अस्तित्वस्य परिवर्तितं रूपम् अस्ति एवमेव अत्र यत्किमपि दर्शनं वा भवतु शब्दस्य श्रवणं भवतु यत्किमपि भवतु यत्किमपि अस्ति अस्मिन् जगति तत् सर्वं तु परमपुरुषस्य परिवर्तितं रूपम् एव अस्ति तर्हि यत्किमपि कर्म मनः मनसा क्रियते तस्य कर्मणः फलं मनसा एव भुज्य मनसा एव भुज्यते तर्हि जीवात्मा किं करोति इति चेत् जीवात्मा केवलं साक्षी सत्ता वर्तते किमपि न करोति केवलं पश्यति परन्तु जीवात्मा अस्ति इति कृत्वा तत्र सर्वं सर्वं कार्यं जायते जीवात्मा अस्ति इति कृत्वा एव तत्र अहमस्मि इति भावः अस्ति जीवात्मा अस्ति इति कृत्वा एव अहं किमपि करोमि जीवात्मा अस्ति इति कृत्वा एव चित्तं रूपं धरति तर्हि जीवात्मा किं करोति इति चेत् जीवात्मा केवलं पश्यति केवलं पश्यति तर्हि कि जीवात्मा यद्यपि किमपि न करोति तथापि केवलं पश्यति इति कृत्वा तत्र येन येन मनसा जीवात्मा सम्बन्धितः वर्तते इति कृत्वा जीवात्मा अपि बद्धः अहं बद्धः अस्मि इति अनुभवति जीवात्मा अपि अहं बद्धः अस्मि इति अनुभवति यदा पृथग्भावः नास्ति यदा पृथक्भावस्य त्यागः भवति तदानीं जीवः अपि अहं मुक्तः इति अनुभवति ओके okay. इति तावत्पर्यन्तम् अस्माभिः गतवर्गे दृष्टमासीत् इदानीं किञ्चित् अग्रे गच्छामः ओके okay. सरिता भगिनी पठितुमिष्यति वा आं नमस्कारः नमस्कारः भगिनि कर्मणः कारणात् मनसः विकारः जायते प्रक्रियया अथवा प्रतिक्रियया मनः पुनः मूलावस्थां प्राप्नोति सा ता प्रतिक्रिया एव अस्माभिः अनुभूयते कर्मफलरूपेण कर्मपरिमाणपरिणामरूपेण यया तीव्रतया सह कर्म क्रियते मनसि च विकृतिः जायते तया च तीव्रतया तस्याः प्रभावः प्रतिक्रियायाम् अथवा कर्मफले प्रदर्शिता भवति मनसि विकृतिम् जनयितुम् विरोधे यः परिस्पन्दः प्रयुक्तः सः पुनः पुनः वास्तविकरूपेण स्थापयति यदा यथा उदाहरणत्वेन जतुकुके अङ्गुल्या निष्पीडनम् कुर्मः कन्दुके अवसाधनं भवति परन्तु कन्दुकः मुक्तः सन् सः स्वस्य प्राप्नोति अङ्गुली प्रतिक्रियासमयेभवति अत्र चतुर्कन्दुकः मनसा तुल्यः अस्ति अपि च अङ्गुली मनुष्यस्य अहम् इति सत्तायाः तुल्या मनुष्यस्य अहम् इति सत्ता मनः कार्यम् कारयित्वा मनसि व्रीडनम् जनयति अतः व्रीडन् सृष्टौ यत्तीव्रता प्रयुक्ता आसीत् तया एव तीव्रतया मनसः पूर्णरूपम्नम् कश्चन अनुभवति प्रकृतेः उद्देशः तु मनसः मूलावस्थायाम् पुनः स्थापनम् तथा च अहम् इति मया सक्तया कार्यम् कर्तुम् मनः प्रेरितम् तै सत्ता दंड है अनया प्रति प्रतिभा अभी उद्देश्य सिद्ध होता प्रकृते नियमा मनसा स्वभाव तो प्रत्येक कर्मण प्रतिक्रियालवस्था आगमन अतः मनुष्य क्या प्रकार से कार्य भोक्तव्यः प्रतिक्रियारूपेण अथवा कर्मफलरूपेण प्रकृतिनियमानुसारं मनुष्यः स्वस्य सर्वेषां कर्मणाम् शुभं वा भवतु अशुभं वा भवतु अनुभविष्यति उदाहरणरूपेण यदि कस्यचित् पुरुषस्य वस्तूनि उदाहरणरूपेण यदि कस्यचित् पुरुषस्य वस्तूनि अपृतानि अन्येन पुष् पुरुषेण तर्हि येन पुरुषेण चौर्य चौर्यकार्यं कृतं सः अन्यस्मिन् पुरुषे दुःखं जनयति सन्ति यस्य पुरुषस्य न श्रूयते भगिनि न श्रूयते हा समीपे आगच्छतु दूरे उदाहरणरूपेण यदि कस्यचित् पुरुषस्य वस्तूनि अभृतानि अन्येन पुरुषेण तर्हि येन पुरुषेण चौर्यकार्यं कृतं सः अन्यस्मिन् पुरुषे दुःखम् जनयति तर्हि तस्य पुरुषस्य वस्तूनि अहृतानि सः स्वस्य वेदनाप्रदानशक्तिं त्वदन प्रयुज्य स्वस्य मनसि विकृतिं जनयति मनः एतां विकृतिं दूरीकर्तुं प्रतिक्रियां जनयति वेतनप्रवर्तकः यः वेतनप्रवर्तकः च अस्याः प्रतिक्रियायाः परिणामेण समानमात्रां पीडां मानसिकप्रमाणेन अनुभविष्यति तथैव यति जनाः स्वकर्मणा परेभ्यः सुखं ददति तर्हि कर्मणां प्रतिक्रियायाः परिणामवशात् तेषां मनः वास्तविकरूपं प्रति आगन्तुं प्रयतते तदाते ते समानमात्रायां सुखम् अनुभवन्ति एतत् किमर्थम् इति चेत् प्रकृतिनियमानुसारं मनः वास्तविकरूपस्य प्राप्तेः प्रक्रियायां कश्चन समानविपरीतप्रतिक्रियाम् अनुभविष्यति एवं प्रकृतिनिर्मितं मनः इति साधनस्य साहाय्येन प्रकृतिः मनुष्येण सर्वकर्मणा कर्मफलानि वाहयति शुभं वा अशुभं वा यत् किमपि मनुष्यः करोति तत् सदृशी प्रतिक्रिया कर्मफल तेन अनुभोक्तव्या किञ्चित् दीर्घ दीर्घमस्ति पङ्क्तिं स्वीकृत्य वयं किमपि कर्म मनुष्यः सर्वदा कर्म कर्म तु करोति एव तदा यदा वयं कर्म कुर्मः तदा मनसि मनसि तस्य परिणामः जायते किञ्चित् विकारं भवति एवं कृत्वा तदा तदनन्तरं मनः पुनः मूलावस्थां प्राप्नोति तत् तत्र कर्मस्य प्रतिक्रिया भवति तदा तदा मनः पुनः मूलावस्थां प्राप्नोति यदि वयं शुभकर्म कुर्मः तदा शुभ प्रतिक्रिया भवति तदा वयं सुखम् अनुभवामः यदि अशुभं कर्म कुर्मः तदा तदनुसारप्रतिक्रिया प्रतिक्रिया भवति एवमेव दुःखम् अनुभवामः सः एव अस्माकं कर्मफल इति वयं कथितुं शक्नुमः येन तीव्रता सह यया तीव्रता सह वयं कर्म कुर्मः तथैव प्रक्रिया अपि प्रतिक्रिया अपि भवति तथा एव विकृतिः मनसि जायते तथ तदनुसारेण एव मनः पुनः तस्य मूलवस्थां प्राप्नो न श्रूयते भगिनी इदानीं श्रूयते इदानीं सम्यक् इदानीं सम्यक् श्रूयते वा आमां सम्यक् अस्ति वदतु सम्यक् अस्ति भगिनि सम्यक् अस्ति भगिनि आम् सः इदानीं वयं किमपि कर्म कुर्मः तदा मनसि प्रक्रिया तु प्रतिक्रिया भवति एव तदनुसारेण मन पुनः मूलावस्थां प्राप्नोति यः प्रक्रिया प्रतिक्रिया एव अस्माकं कर्मफलम् भवति यदि वयम् शुभकर्म कर्म कर्मा, तदा तदनुसारप्रक्रि प्रतिक्रिया भवति वयम् सुखम् अनुभवामः यदी वयम् अशुभं कर्म कुर्म तदनुसारेण प्रक्रिया प्रतिक्रिया भवति तदा वयं दुःखम् अनुभवामः किन्तु मनः तु पुनः पुनः मूलवस्थां प्रय प्राप्तुमेव प्रयतते इदानीम् एकम् उदाहरणम् अत्र दत्तमस्ति कन्दुकः अस्ति वयम् अङ्गुल्याः तं दवाबं प्रेशर् दद्मः तदा सः पुनः स्वस्य रूपं प्राप्नोति किन्तु अङ्गुल्या वयं किञ्चित् तस्य प्रभावम् अनुभवितुं शक्नुमः तदा आ, ये, आ, येन यया ये मात्रया वयं दावं तद्माह, तदनुसारेण एव तत्र प्रतिक्रिया तत्र पीडनं भवति एवं प्रकृतः स्वभावः तु अस्माकं मनसः पुनः अस्माकं मूलावस्थां प्राप्नोति इति एव प्रकृतेः अपि उद्देशः प्रयासाः भवति किन्तु तत् प्रक् प्रतिक्रियायां यः मनः दुःखं वा सुखं वा अनुभवति सः एव अस्माकं कर्मफलम् अथवा दण्ड इति भवति एवं भवत् अग्रे किमस्ति यदि कोऽपि पुरुषः उदाहरणरूपेण अस्माकं वस्तूनि अपहरति तदा सः अस्माकं मनसि दुःखम् जनयति किन्तु तस्य यः अपहरणं करोति सः अपि तस्य कर्मफलस्य परिणामम् अवश्यं तेन अपि भोक्तव्यं भवति इदानीं यः दुःखम् अनुभवति तस्य तस्य किं कारणेन दुःखं भवति इति मया सम्यक् स तु किमपि न कुर्वन् अस् किन्तु सः अपि दुःखम् अनुभवति भवती स्पष्टं करोतु आं सः किमर्थं दुःखम् अनुभवति इति अहं वदामि परन्तु इदानीं भवती समापयतु अत्र अग्रे यद् यदस्ति मनः तु प्रकृतेः एव प्रकृतेः एव द्वारा एव निर्मितम् अस्ति अतः प्रकृति अवश्यं साहाय्यं कुर्वन्ति मनस्य मनः मूल अवस्था की प्रकृति अग, आ, यहा प्रकृति सदी यहाँ प्रकृतिरुद्धम गुसारेण सह दुखम अभवती यहा प्रकृते अच्छी प्रकृते निसारेण कार्य कुर सः सुखम् अनुभवति एवं मूल अवस्थाः प्राप्नु वयं प्राप्नुमः इति एव प्रकृतेः लक्ष्यम् अस्ति इति भवति वदतु या इत्युक्ते अत्र क्रमेण लिखितम् अस्ति प्रक्रिया कथं भवति इति क्रमेण लिखितमस्ति अस्माकं मनुष्यः मनुष्याः कथं कार्यं कुर्वन्ति इति अत्र लिखितमस्ति वयं पशुपक्षिणः ये सन्ति ते अपि कार्यं कुर्वन्ति परन्तु ते प्रकृतेः नियमानुसारं नियमानुमानुसारं कार्यं कुर्वन्ति ते तु कर्तारः रह, भोक्तारः न सन्ति यथा तत्र व्याघ्रः अस्ति व्याघ्रः मृगस्य हननं करोति तदर्थं वयं व्याघ्रे दोषः अस्ति इति न वदामः यतोहि तत्र प्रकृतेः नियमा नियमानुसारं तत् कार्यं करोति त स्वः सः स्वयं न जानाति तस्य बुभुक्षा अस्ति इति कृत्वा सः गत्वा मृगस्य हननं करोति यतोहि तस्य डिसैन् तथा अस्ति इति कृत्वा तत्र तथा कार्यं करोति अतः व्याघ्रेण मृगस्य हननं कृतम् इति कृत्वा तस्मिन् वयम् आरोपं न वदामः आरोपं न वदामः यतोहि इत, सः तु प्राणी अस्ति स तेनापि किमपि खादनीयम् अतः तत् तथा करोति परन्तु यदा मनुष्यः मृगस्य हननं यदा करोति बाणेन अथवा अन्यरूपेण तदानीं तु भिन्नवार्ता अस्ति व्याघ्रेण अपि मृगस्य हननं कृतं मनुष्येनापि मृगस्य हननं कृतं द्वयोः वेदः कः इति चेत् व्याघ्रः तु कर्ता नास्ति मृगस्य हननार्थं सः कर्ता नास्ति परन्तु मनुष्यः तु कर्ता स कर्ता सः विचिन्त्य सर्वं कृतं ते मनुष्यः तु ज्ञात्वा सः तु ज्ञात्वा कृतं तस्मिन् एतादृश अभिलाषा आसीत् यद् अहं मृगस्य हननं करोमि मम कृते इति कृत्वा सः ज्ञात्वा कार्यं करोति अतः सः कर्ता अपि अस्ति तादृशकार्यस्य भोक्ता अपि सः अस्ति हननं कृत्वा मृगस्य मांसं सः खादति तर्हि तत्र मृगस्य हननं तेन ज्ञात्वा कृतं तर्हि तर्हि तत्र तादृशकार्यस्य प्रतिक्रिया अवश्यं भवति प्रतिक्रिया मानसिकरूपेण प्रतिक्रिया भवति तर्हि मानसिकरूपेण प्रतिक्रिया भवति इत्युक्ते मनः यदा एकेन पुरुषेण किमपि स्वतन्त्रतया कार्यं कृतं तदानीं मनः द मैण्ड् गेट्स् द डिस्ट्राक्षन् इन् द मैण्ड् तदानीं किं भवति इति चेत् तत्र मनः पुनः वास्तविकदशां कथं प्राप्नोति कथं प्राप्नुयात् इति चेत् तदानीं प्रतिक्रियाद्वारा प्राप्नुयात् यदा सः तद् मनः पुनः समान समान समानरीत्या यदा मनसि वेदना जायते तदानीं तत्र किं भवति इति चेत् मनः पुनः वास्तविक अवस्थां प्राप्नोति तदर्थम् अत्र उदाहरणं दत्तमस्ति एकः पुरुषः अस्ति सः अन्यस्य कृते दुःखं ददाति तर्हि यः अन्यस्य कृते वेदनां ददाति तर्हि तेन किमपि कार्यं कृतं तर्हि तादृशकार्यस्य प्रतिक्रिया भवति तत्तु अस्मिन् जन्मनि प्रतिक्रिया प्रतिक्रियायाः अनुभवः अस्मिन् जन्मनि अपि भवितुम् अर्हति अथवा अग्रिमे जन्मनि अग्रिमे जन्मनि अपि भवितुम् अर्हति परन्तु तादृशस्य कार्यस्य कर्मफलं तु अवश्यं तेन पुरुषेण तेन मनुष्येन कर्मफलम् अनुभोक्तव्यम् एव तर्हि तद् तद् कर्मफलं यथा वास्तविकर्म आसीत् तथैव भवति वा इति चेत् तत्र मानसिकरूपेण अन्य अन्येन पुरुषेण यादृशवेदना अनुभूता तद् समानतुल्य तुल्यवेदना अयं पुरुषः अपि अनुभवति येन वेदनां येन वेदनां वेदना दत्ता तेन अपि तुल्यरीत्या मानसिकपीडनम् अनुभवति तदर्थमेव मेण्टल् मेशर् इति उक्तम् यतोहि इत्युक्ते अहं कस्यचित् कृते वेदनां ददामि चेत् समानकार्येण अहमपि वेदनाम् अनुभवामि इति नास्ति कार्यं भिन्नमपि भवितुमर्हति परन्तु समानवेदनाम् अहम् अनुभवामि समानवेदनाम् अहम् अनुभवामि अनुभवामि अन्यस्य कृते यद् मया या वेदना दत्ता समानवेदना मया अपि अनुभूयते तत् समानरीत्या अपि भवितुमर्हति भिन्नरीत्या अपि भवितुमर्हति बट् द मेण्टल् मेजर् आफ़् पेन् विल् बि इक्वलेण्ट् रैट् इत्युक्ते सर्वं मनसि एव भवति एव्रिथिङ्ग् इस् हेपनिङ्ग् अट् द मेण्टल् लेवल् दर्सन् विल् हाव् टु एक्स्पीरियन्स् दट् पेन् तत्तु इट् मे बीन् द सिमिलर् डिग्री इट् मे नाट् इव टेक् दिसिकल्कल् मेनफ़ेस्टेशन् यु केन् टेक् फिसिकल् मनिफेस्टेशन् नाट् टेक्स् इट् आल् डिपेण्ड्स् बट् अट् देण्ड् आफ् द डे मेण्टली दट् वि हिल् हेव् अ सेम् पेन् इत्युक्ते तत्र केनचित् पुरुषेण धनम् अपहृतं चेत् तदानीम् अन्यः पुरुषः अपि कर्मफलरूपेण तस्य धनस्य समानधनस्य किम् अपहरणं करोति इति नास्ति इत्युक्ते तत्र धनः अपहरणेन अन्यस्य पुरुषस्य या वेदना आसीत् समानवेदना सः अपि अनुभवति तादृशकार्येण वा भिन्नकार्येण वा भवतु इदानीं भवत्याः प्रश्नः अस्ति यस्य धनस्य अपहरणं जातम् तस्य वेदना अस्ति खलु तस्य किमर्थं वेदना अस्ति इति चेत् तेन किमपि कृतं स्यात् पूर्वजन्मनि किमपि कृतं स्यात् तदर्थं तेन वेदना अनुभूता इति स्यात् यदि पूर्वजन्मनि किमपि न इति इदानीं तत्र स्वतन्त्रतया इदानीं प्रथमवारं वेदना अनुभूता अन्यस्य कार्येण इति चेत् तदानीम् अनन्तरं सः समानरीत्या सुखम् अनुभवति येन तत्र वेदनायाः इट् विल् जस्ट् आफ्सेट् द वेदना यदि वेदना अनुभूता तर्हि पूर्वजन्मनि किमपि कृतं स्यात् अथवा पूर्वं किमपि कृतं स्यात् तस्य प्रतिफलं भवितुम् अर्हति येन सः वेदना अनुभूता अन्येन अन्येन अन्यस्य कार्येण नो चेत् तेन किमपि कृतं प्रथमवारं सः वेदना सः वेदनाम् अनुभवति इति चेत् समानरीत्या सः अग्रे कदाचित् सुखम् अनुभवति अस्मिन् जन्मनि वा अग्रिमजन्मनि येन वेदनायाः आफ्सेट् भवति इति अपि भवितुमर्हति तद्वयं न ज्ञातुं शक्नुमः तत्र किमर्थं सः वेदना अनुभूता इत्युक्ते पूर्वजन्मनः कर्मफलस्य आफ्सेट् तदर्थं तेन वेदना अनुभूता नो चेत् प्रथमवारं अनुभवति इति कृत्वा अग्रे तस्य आफ्सेट् सुखद्वारा भवति भवितुमर्हति hm it is at the end of the day if you come back to the square one ya avastha manasah uh, ya uh, avastha purva masit tadrisha avastham praaptum ekimape avashyakam tad tad bhavati tadeva karmapala rupeṇa atra spashtam a kina atra kopi prashna hai kina vagni yatha newton's law jena x and vx are equal and opposite right yes exactly exactly karma, karma. yeah that always okay but here it is equal and same not opposite mama pallaya thi bhavatina that process no no it is uh, equal and opposite in it pay the when you look at a rubber ball it is getting depressed right is getting depressed you need to get an opposite reaction to bring it to the original shape tadeva mayamaha opposite etite tetatra yada kimapi kurma when the mind gets depressed or the mind there is a there is a distortion in the mind so we need to have an opposite reaction to bring it back to the original shape so tadeva equal an opposite reaction etivadamaha kia bagian ini आं भगिनि हा अस्तु तर्हि अग्रे गच्छामः इदानीं किं सुचित्रभगिनी पठितुमिच्छति वा पठामि वा कोऽपि कर्म कृत्वा किञ्चित् क्षणमपि स्थातुं न शक्नोति कश्चन शान्तरूपेण उपविष्टः चेदपि कर्म कुर्वन् एव अस्ति यद्यपि भौतिकशरीरं परिश्रमं न करोति तथापि मनः नित्यं सक्रियं अस्थिरं च भवति शरीरकर्म विनापि मनः चिन्तनेन कल्पनेन वा कर्मसु प्रवर्तते अन्यस्य हितं चिन्तयन् कश्चन तस्य वधस्य योजनामपि करोति स्म अथवा अन्येषां दुःखनिवारणे सहायं कर्तुं मार्ग उपायं चिन्तयन्नस्ति एतत् सर्वं शारीरिकश्रमं विनापि कर्म अस्ति शारीरिकक्रियापि केवलं मानसिकक्रियायाः इतोपि प्रक्षेपणमात्रम् एव सर्वं कर्म मनसा दशभिः अवयवैः इन्द्रियैः च इति पूर्वं व्याख्यातम् अस्ति एतानि इन्द्रियाणि केवलं चित्तस्य विस्तारः एव सन्ति चित्तं मानसिककर्मणां शारीरिकक्रियासु परिवर्तनं करोति सर्वाणि कर्माणि शारीरिकं मानसिकं वा इति वर्गीकृत्य स्थापयितुं शक्यते इन्द्रियाणां सहायेन मनसा कर्माणि शारीरिकाणि अपि इन्द्रियाणां सहाय्येन विना मनसा क्रियमाणानि कर्माणि मानसिकानि कर्माणि एतत् द्विविधं कर्म अपि मनसि विकृतं जनयति अतः मनसः सामान्यस्थितौ पुनः स्थापनार्थं कर्मणां प्रतिक्रिया अनुभोक्तव्या भवति अतः मानसिकं शारीरिकं वा यत्किमपि कर्म प्रतिक्रिया कर्मफलम् अनुभव अत्र दत्तमस्ति यत्किमपि कर्म वयं कुर्मः तस्य फलम् अवश्यम् अनुभवामः तर्हि कर्मं कुर्मः वा वयं चिन्तयामः कर्मं न कुर्मः चेत् फलमपि न भवति परन्तु तादृशं नास्ति यदा किमपि वयं शारीरिककर्मं न कुर्मः परिश्रमं किमपि न कुर्मः केवलम् एकस्मिन् स्थले उपविश्य किमपि चिन्तयामः तदपि एककर्मः एव किमर्थमित्युक्ते कर्मः द्विविधः भवितुम् अर्हति शारीरिकं वा मानसिकं वा अस्माकं मनः तु सर्वदा चञ्चलः एव अस्थिरः भवति यत्किमपि चिन्तनं भवतु कस्यापि जनस्य सुखं जनयितुं वा अथवा कस्यां तीरं जनयितुं तादृशः चिन्तनं मनसि भवति एव अतः तदपि कर्मरूपेण एव गण्यते गण तस्यापि फलं भोक्तव्यं भवति एतादृश कोपि पुरुषः अन्य किमपि हितं कर्तुम् इच्छति तदपि कर्मेण गण्यते अन्यथा तु कस्यापि अहितं किमपि दुष्टकर्मस्य अपि चिन्तनं भवति मनसि भवति शारीरिकरूपेण न करोति परन्तु मनसि दुश्चिन्तन अस्ति चेत् तदपि कर्मरूपेण अपि अतः यद् मानसिकरूपेण सः अहितं चिन्तनं करोति चेत् तादृशचिन्तनस्यापि फल सः एव अनुभवति शारीरिककर्मं यद् कुर्मः तत्तु वयम् अस्माकम् अवयवैः कुर्मः एकैः तत्र सहायं कुर्वन्ति एतानि तत्तु अस्माकं मनसि यद् स्तरः अस्ति एव विस्तारः अस्ति परन्तु मानसिकक्रिया यद् कुर्मः तत्र इन्द्रियाणामपि किमस्ति भागम् अधिकं न भवति तत्तु केवलम् अस्माकं चिन्तने मनसः कार्यं भवति मनसः एव कृतं भवति एतादृशं यद् इन्द्रियाणां सहायं विना वयं कर्माणि कुर्मः मनसि तादृश तत्सर्वं मानसिककर्माणि इति वक्तुं शक्यते अतः यत्किमपि भवतु न शारीरिकं वा मानसिकं वा मनसि तु विकृतं भवति एव तत्र विकारः वा परिवर्तनम् आगच्छति अतः पुनः तद् परिवर्तनस्य किमस्ति प्रतिरूपं पुनः तस्य सामान्यस्थितौ स्थापनार्थं तत् प्रतिक्रिया यः कोऽपि यस्य मनसि चिन्तनम् अस्ति सः अनुभोक्तव्या एव तादृशमेव स्थितिः अतः कर्म अस्ति चेत् फलं निश्चयेन भवति तदेव हा हा समीचीनं भगिनी तर्हि अत्र किम् अत्र स्पष्टं भवेत् इति चेत् अत्र कर्माणि द्विविधानि शारीरिककर्माणि मानसिककर्माणि इत्युक्ते शरीररूपेण वयं कर्म न कुर्मः चेदपि मानसिकरूपेण वयं कर्म कुर्मः इत्युक्ते मनः सर्वदा चिन्तयति तत्र मनसः कदा सर्वदा विषयः भवति एव स्वविषयकमेव भवति मनः विषयं विना न भवति तर्हि चिन्तनम् अस्माकं स्वभावः अस्ति तर्हि मनः सर्वदा चिन्तयति सर्वदा चिन्तनं करोति परन्तु यत्किमपि वयं चिन्तयामः तत्तु शारीरिकरूपेण आकारं न प्राप्नोति तर्हि इदानीं अहं धनस्य चौर्यं करोमि इति चिन्तयति चेत् केवलं चिन्तनं करोति परन्तु शारीरिकरूपेण चौर्यकार्यं न करोति तर्हि तादृशपुरुषः यः चिन्तयति त तं तु वयं कारागृहे न इति अत्र महान् भेदः मुख्यभेदः अस्ति यदि तत्र कोशस्य वित्तकोशस्य चौर्यकार्यं कर्तुम् इच्छति परन्तु वस्तुतया वस्तुतः न तादृशकार्यं न कृतं केवलं चिन्तनं कृतं तर्हि यदि वयं चिन्तयामः अन्येन पुरुषेण ज्ञातं यत् एतादृश यः पुरुषः एतादृशं चिन्तयति इति अन्येन पुरुषेण ज्ञातं परन्तु अनेन पुरुषेण वस्तुतः एतादृशकार्यं न कृतं तर्हि तादृशपुरुषं वयं कारागृहे तु न स्थापयामः यद्यपि तेन तादृशचिन्तनं कृतं तर्हि तत्र सर्व सर्वविधकर्म तस्य सर्वविधकर्मस्य दण्डनं भवति इति नास्ति मानसिकरीत्या किमपि चिन्तनं कृतं चेत् तस्य दण्डनं तु बाह्यरूपेण न भवितुम् अर्हति परन्तु तत्र प्रकृतिद्वारा सर्वस्य चिन्तनस्य दण्डः सर्वस्य चिन्तनस्य प्रतिक्रिया तु भवति एव तर्हि अस्मिन् परिच्छेदे मानसिककर्म शारीरिककर्म अनयोः भेदः अत्र उच्यमानः अस्ति तर्हि यदा चिन्तनं शरीरि शारीरिकरूपेण आकारं न गृह्णाति तदा तथापि मानसिकरीत्या चिन्तनं कृतं चेत् तस्य प्रभावः तु मनसि भवति एव तस्य तस्य तादृशचिन्तनेन मनसः अधोगमनं तु भवति एव तर्हि अथवा तत्र मनसि तत्र किमपि सम्यक् चिन्तनमस्ति चेत् तदानीं वर्धनमपि भवति मनसः तत्र स्थूलविषयस्य चिन्तनमस्ति चेत् मनसः अधोगतिः अपि भवति अतः स्थूलविषयस्य चिन्तनं चेत् मनसः अधोगतिः सम्यक् विषयस्य चिन्तनं चेत् मनसः अग्रगतिः तर्हि एतत् सर्वं तु मनसि चिन्तनं जायते इति कृत्वा परमपुरुषस्य विषये चिन्तनं चेत् मनः वर्धते तर्हि सर्वदा मनः उपरि गच्छति अथवा अधोभागे गच्छति तर्हि यथा मनः चिन्तयति तत्र तादृशचिन्तनस्यापि प्रतिक्रिया भवति यथा शारीरिकरूपेण कर्म कुर्मः तदानीं प्रतिक्रिया भवति तथैव मानसिकरूपेण चिन्तनमस्ति चेत् तस्यापि प्रतिक्रिया भवति यदि मनसि चिन्तयति अहं तत्र चौर्यकार्यं करोमि इति कोऽपि चिन्तयति चेत् तर्हि तस्यापि प्रतिक्रिया भवति यदि चिन्तनम् अस्ति चेत् तदानीम् अग्रे गत्वा सः शारी शारीरिकरूपेण अपि कार्यं करोति तर्हि मानसिकरीत्या वा भवतु शारीरिकरीत्या वा भवतु तस्य प्रतिक्रिया तु अवश्यं भवति कर्मफलं तु अवश्यं भवति यदा तत्र परमपुरुषस्य विषये चिन्तनं नास्ति परन्तु स्थूलविषये चिन्तनमस्ति तदानीं मनः परमपुरुषात् दूरं गच्छति यदा परमप तत्र परमपुरुषस्य विषये चिन्तनमस्ति तदानीं मनः परमपुरुषस्य समीपं गच्छति यथा वयं चिन्तनं कुर्मः तद्वत् अत्र अस्माकं अस्माकं वयं समीपं गच्छामः अथवा दूरं गच्छामः तद्वत् अतः एव अत्र मानसिककर्म इति अपि तत्र मुख्यता वर्तते केवलं शारीरिककर्म इत्युक्ते कर्म इति सामान्यतया वयं वदामः चेत् एव वयं चिन्तयामः परन्तु अत्र मानसिककर्म अपि अस्ति शारीरिककर्म अपि अस्ति द्वयोः अपि महत्वं वर्तते अतः मानसिकं वा शारीरिकं वा यत्किमपि कर्म तस्य प्रतिक्रिया अवश्यं भवति एव तर्हि तादृशपुरुषेण प्रतिक्रिया अनुभोक्तव्या एव शारीरिककर्म मानसिककर्म अनयोः भेदः कः इति चेत् शारीरिककर्म इन्द्रियैः अस्माभिः क्रियते मानसिककर्म कर्म कर्तुम् इन्द्रियस्य आवश्यकता नास्ति चिन्तनं केवलं मनसि भवति इन्द्रियस्य आवश्यकता नास्ति इति एवं रीत्या द्विविधम् अस्ति कर्म अस्तु इतोपि एकं परिच्छं स्वीकुर्मः प्रियभगिनी कर्तुमिच्छति वा आं भगिनि कोऽपि कर्म अकृत्वानुष्येषु पूर्णतया प्रति प्रतिबिम्बितम् चैतन्यम् प्रकृतिबन्धेन अधीनस्य साक्षात्कारं जनयति मनुष्याः अस्याम् दास्यावस्थायाम् निरन्तरम् स्थातुम् नेच्छन्ति अतः ते प्रकृतिविरुद्धम् स्वतंत्रतयाकार्यं कार्यम् प्रकृतिः तु क्रमेण तेषाम् कर्मणाम् प्रतिक्रियारूपेण तेभ्यः दण्डम् प्रयच्छति अस्याम् पृथिव्याम् मनुष्याणामेव पूर्णतया प्रतिबिम्ब भींब... प्रतिबिम्बितचैतन्यम् भवति अतः मनुष्यान् विहाय कोऽपि जीवः स्वतन्त्रतया कार्यम् कर्तुम् न शक्नोति स्वतन्त्रतया अथवा प्रकृतेः इच्छावृद्धे कृतानि भगिनि कर्म प्रकृति कृतानि कर्मणि एव प्रकृतिनियमाः दण्डयन्ति ये स्वतन्त्रकर्माणि कर्तुम् असमर्थाः सन्ति ते प्रकृतेः हस्ते कमपि दण्डं न प्राप्नुयुः मनुष्यान् विहाय न कश्चित् जीवः कर्मणा कर्मफलम् अनुभवति इति द्रष्टुं शक्नुमः सो ह्यूमन् बीङ्ग्स् केनाट् मनुष्येषु पूर्णतया प्रतिबिम्बत्वं चैतन्यं प्रकृतिबन्धेन अधीनस्य साक्षात्कार जनयति साक्षात्कारं जनयति सो इन् मनुष्येषु चैतन्यं तु प्रतिबिम्बित्वम् अस्ति परमपुरुषस्य किन्तु तत् प्रकृतिबन्धेन अधीना अस्ति अतः साक्षात्कार अधीनस्य साक्षात्कारं जनयति so, सो इत्युक्ते अधीनस्य ज्ञानं भवति इत्यर्थः मनुष्येषु चैतन्यं सम्पूर्णतया प्रतिबिम्बितं वर्तते इति कृत्वा तेषु तादृशसामर्थ्यम् अस्ति ज्ञातुम् अहं प्रकृतेः बन्धने अस्मि अहं बद्धः अस्मि इति ज्ञानं मनुष्येषु एव भवति पशुषु न भवति खलु अहं बद्धः इति एतादृशभावः केवलं मनुष्येषु भवति अहं बद्धः अस्मि इति भावः तस्य ज्ञानमपि भवति सो so, uh, किन्तु मनुष्याः सर्वदा uh, uh, एद प्रकृतिबन्धने अधीनं भवितुं निरन्तरं भवितुं uh, न इच्छति अतः uh, सः uh, अतः मनुष्याः कार्यं कर्तुं कार्यं कुर्वन्ति प्रकृतिविरुद्धया कार्यं कुर्वन्ति सो बन्धात् विमुक्तिं अपि प्रयत्नं कुर्वन्ति किन्तु प्रकृतिः तु क्रमेण तेषां कर्मणां प्रतिक्रियारूपेण तेभ्यः दण्डं प्रयच्छति पूर्वं वयं दृष्टवन्तः यथा कर्मफलस्य प्रसक्तिः भवति तदा सो मनुष्यः ये कर्माः कर्म ये ये कर्माणि कर्म ये ये कर्माणि कुर्वन्ति तद् तस्य तेषां प्रतिक्रियारूपं भवति एव दण्डं ददाति एव प्रकृति मनुष्यः अतः अस्य पृथिव्यां पूर्णतया प्रतिबन्धं प्रतिब प्रतिबिम्बित हा पूर्णतया पृथिव्यां प्रतिबिम्बचैतन्यम् एव भवति पुरुषचैतन्यं पुरुषस्य प्रभावः न भवति पूर्णतया प्रकृति प्रकृतिबन्धने एव अधीनं भवन्ति मनुष्याः अतः पूर्वं वयं दृष्टवन्तः व्याघ्रः उदाहरणं स्वीकृत्य मनुष्यान् विहाय कोऽपि जीवः स्वयं चिन्तयित्वा आत्मा आत्मा अस्ति अहं केवलं मम अहं केवलं शरीरं वा मनः वा चित्तं वा बुद्धि वा नास्मि तद् उपरि अपि एकः अहम् अस्मि अहं जीवात्मा अस्मि इति अन्य मनुष्यविहाय अन्य मनुष्यान् विहाय अन्यकोपि अन्यकोपि कार्यं न कर्तुं शक्नोति इत्युक्ते अन्यजीवः कोऽपि न कर्तुं शक्नोति So, यथा प्रकृतेः इच्छा विरुद्ध कृतानि कर्माणि प्रकृतिनियमाः दण्डयन्ति मनुष्यस्य स्वभावः जीव आनन्द किन्तु तद् स्वभावं विरुद्धेन वयं बहवः कार्यं कार्याणि कुर्वन् कुर्मः अतः अतः प्रकृति अपि दण्डयति अतः केवलं मनुष्यम् ए मनुष्याः एव स्वचिन्तनं स्वस्य साक्षात्कारं किम् इति अनुभव अनुभूति अनुभवं तस्मिन् एव मनुष्य मनुष्य मनु मनुष्यनु मनुष्यः मनुष्यः एव स्फुरति अतः तस् मनुष्यविहाय कोऽपि जीवः कर्मफलं न अनुभवति केवलं मनुष्य एव कर्माणां कर्मफलम् अनुभवति पशुजीव पशुजीवस्य पशु जीव, पशु किमपि करोति तत् तस्य स्वभावमेव अतः तस्य पशोः किमपि प्रभावं नास्ति किन्तु मनुष्यः mm. तथा नास्ति सः चिन्तितुं शक्नोति किं करणीयं किं न करणीयम् इति अतः विरुद्ध कार्यस्य दण्डनं भवति एव सम्यक् भगिनी इति अस्ति तर्हि के मनुष्याः केवलं मनुष्याः एव कर्मफल कर्मफलस्य अनुभवं प्राप्नुवन्ति यतोहि ते एव स्वकार्यस्य कर्तारः सन्ति भोक्तारः संति. पशवः सस्यानि कर्तारः न सन्ति अतः ते तु स्वकर्मणः कर्मफलं न अनुभवन्ति तस्य तदर्थम् उदाहरणानि चिन्तितानि पूर्वं यथा व्याघ्रः मृगस्य हननं करोति अथवा वानरः गृहात् कदलीफलफलं स्वीकरोति चेत् तद् न वदामः यतोहि ते जा ते जा न जानन्ति प्रकृतेः नियमानुसारं ते तु कार्यं कुर्वन्ति ते तु कस्यचित् हानिं कर्तुं न कुर्वन्ति केवलं प्रकृति तत्र सहजात् वृत्तिद्वारा ते कार्यं कुर्वन्ति अतः ते कर्तारः न सन्ति अतः कोऽपि तस्य निन्दां न करोति अथवा स्तुतिमपि न करोति वा, वानराः अथवा पशवः तु सेवामपि कर्तुं न शक्नुवन्ति इत्युक्ते केचन शुनकाः सन्ति यस्य प्रशिक्षणं भवति येन ते अधिकं किमपि कार्यं कुर्वन्ति यथा कोऽपि अन्धः अस्ति चेत् तस्य मार्गदर्शनं करोति अथवा इतोपि अधिकं तत्र तु प्रशिक्षणद्वारा ते कुर्वन्ति परन्तु सामान्यतया तु शुनकः तादृशकार्यं न करोति शुनकः तु प्रकृतिनियमानुसारं कार्यं करोति परन्तु केचन सन्ति किञ्चित् अधिकं कुर्वन्ति परन्तु तत्र सेवाभावः ना तु नास्ति शुनकेषु सेवाभावः तु नास्ति परन्तु मनुष्याः तु कर्तारः सन्ति तेषु स्वतन्त्र इच्छा वर्तते इति अत्र महान् भेदः अस्ति इत्युक्ते सर्वे जीवाः अन्ततो गत्वा दशवादने मनुष्याः भवन्ति तदनन्तरं मनुष्याः दशवादनात् द्वादशवादनपर्यन्तं तेषाम् अग्रगतिः भवति तर्हि कोऽपि जीवः अग्रगतिं केनचित् जीवेन अग्रगतिं प्रापणीयं चेत् प्रथमतया मनुष्याः ते भवन्ति चेदेव अग्रगतिम प्राप्तुं शक्नुवन्ति अतः पशवः तु साधनां कर्तुं न शक्नुवन्ति उत्त अपि कर्तुं न शक्नुवन्ति जगतः हितं न कर्तुं शक्नुवन्ति सेवां कर्तुं न शक्नुवन्ति केवलं मनुष्येषु तादृशसामर्थ्यमस्ति यदा मनुष्याः प्रेरिताः भवन्ति स्वचेतनया प्रेरिताः भवन्ति तदानीं ते अग्रगतिं प्राप्तुं प्रयत्नं कुर्वन्ति तदानीं प्रकृतिः तत्र प्रकृतेः इच्छाविरुद्धं कुर्वन्ति इति कृत्वा प्रकृतिः तान् दण्डयितुं प्रयत्नमपि करोति परन्तु यदा परमपुरुषस्य शरणं गच्छामः तदानीं तत्र भयस्य आवश्यकता एव नास्ति इत्यपि अस्माभिः वर्गस्य आरम्भे दृष्टमासीत् अस्तु तर्हि अत्र किं सरलभग्नि भवती अपि वा एकं परिचयम् प्रत्येकं शुभं वा अशुभं वा कर्म भवतु तस्य कर्मफलम् अनुभोक्तव्यं भवति मनुष्याः शरणम् अपि कर्म विना स्थातुं न प्रभवन्ति अतः ते मृत्युशरं पर्यन्तं कार्यं कुर्वन्तः भवन्ति मृत्योः अनन्तरं कोऽपि प्रतिक्रियायाः अनुभवात् मुक्तः न भवति केवलं ये कार्यं कुर्वन्ति ते एव तस्य कर्मणः प्रतिक्रियायाः कर्मफलस्य अनुभवं प्राप्नुवन्ति कश्चित् अन्य प्रतिनिधिरूपेण तानि कर्मफलानि अनुभोक्तुं न शक्यते कस्यचित् मृत्तपुरुषस्य भौतिकशरीरं खाद्यं वा दग्धं वा भवति तर्हि कथं सा प्रतिक्रिया कर्मफलानि अनुभोक्तुं शक्नोति निम्न निम्नलिखित परिच्छेदाः व्याख्यास्यन्ति सो इदानीमपि समान विचार अस्ति मनुष्य कदापि कर्म विना न तिष्ठति मृत्युपर्यन्तम् कर्म प्रचलति एव यदि कोऽपि अन्यकर्म नास्ति मानसिककर्म नदीति ना किन्तु फिसियालजिकल् यथा श्वासनिःश्वास एते कर्माणि तु प्रचलन्ति समान ये चलन्ति तु एते ते अपि कर्मा सन्ति द्वितीय अस्ति यदि कर्म शुभ वय वा अशुभ अस्ति कर्मफलम् तस्य अनुसारं भवति कर्मफल अपि शुभं भवे वा अशुभं भवति इति अस्ति तृतीयबिन्दुः अस्ति मनुष्य यदि कोऽपि कर्मफल अत्र यत् अस्ति तस् तत् अस्मिन् जन्मनि अत्र यावत्पर्यन्तं तस्य शरीरम् अस्ति जीवितः अस्ति कर्म त तदा एव भवति यदि अ शरीर जीवितः नास्ति तदनन्तरं कर्म नास्ति किन्तु कर्मफलस्य अ प्रभावः भवति तस्य सूक्ष्मशरीरे उपरि शरीर उपरि इति अस्ति किन्तु तस्य कदा कदा तस्य प्रभावः प्रतीयते इति अत्र न दत्तमस्ति किन्तु वयं पूर्वं जा जानीमः कदापि अपि भवितुं शक्नोति कर्मफलस्य प्रभावः तुरन्तरमपि भवती झटिति भवति शक्नोति कानि विलम्बेन वा कानि दिनानि वा वर्षाणि वा जन्मनि नन्तरमपि भवितुं शक्नोति इति प्रतिक्रिया अस्ति कर्मफल प्रतिक्रिया वयं वदामः कर्मण प्रतिक्रिया सम्यक् सम्यक् सम्यक् तर्हि प्रत्येकं कर्म कर्मणः प्रतिक्रिया तु भवति एव तत्र कोऽपि तस्य निवारणं कर्तुं न शक्नोति इत्युक्ते मरणपर्यन्तं कर्म कुर्मः तस्य तु प्रतिक्रिया अवश्यं भवति कोऽपि तस्मात् मुक्तिं न प्राप्तुं शक्नोति इत्युक्ते कर्मफल कर्मफलस्य प्रतिक्रिया तु अवश्यं भवति योगनिष्ठजीवने प्रवेशं प्राप्नुवन्ति चेत् तत्तु तत्र तु भिन्नवार्ता अस्ति परन्तु सामान्यतया प्रत्येकं कर्मणः प्रतिक्रिया तु भवति तस्य तस्य निवारणं न शक्यते तस्य अनुभवः अवश्यम् अस्माभिः तादृशकर्मफलस्य अनुभवः अस्माभिः अवश्यं करणीयम् अनुभवः करणीयः इत्युक्ते मम कर्म मया यत् कर्म कृतं तस्य कर्मफलम् अन्ये अन्यैः भोक्तुं न शक्यते यः करोति सः एव अनुभवति इति अपि हा यः यः करोति सः एव अनुभवति सम्यक् कर्म उत्तमकर्म वा अनुचितकर्म वा यः करोति सः एव अनुभवति इति अत्र विषयः अस्ति अस्तु अत्र स्थगनं कुर्मः समयः अतीतः कोऽपि प्रश्नः अस्ति वा अस्तु क्षम्यतां किञ्चित् विलम्बः जातः धन्यवादः नमस्कारः नमस्कारः धन्यवादः धन्यवादः नमस्कारः